आत्मनाथवाब्रह्मानन्दसहस्रनामावलिः ॐ ब्रह्मानन्दाय नमः ॐ आत्मनाथाय नमः ॐ अज्ञानाश्वत्थसाक्षिणे नमः ॐ अग्राह्याय नमः ॐ अत्याज्याय नमः ॐ अगोत्राय नमः ॐ अपर्णाय नमः ॐ अपवर्णाय नमः ॐ अस्थूलाय नमः ॐ अनणवय नमः ॐ अस्वाय नमः ॐ अदिव्याय नमः ॐ अलोहिताय नमः ॐ अनिलाय नमः ॐ अस्नेहाय नमः ॐ अच्छायाय नमः ॐ अविषयाय नमः ॐ अनाकाशाय नमः ॐ अनपेयाय नमः ॐशब्दाय नमः ॐ अस्पर्शाय नमः ॐपाय नमः ॐ अरसाय नमः ॐ अरजसे नमः ॐ असमग्राय नमः ॐ अघवते नमः चक्षुष्याय नमः ॐ अजिह्वाकाय नमः ॐ अगस्तये नमः ॐ अपापापाय नमः ॐ अमनसे नमः ॐ अप्रजापतये नमः ॐ अप्राणाय नमः ॐ अपतृप्याय नमः लक्षणाय नमः ॐ अतातप्याय नमः ॐ अगन्तव्याय नमः ॐ अविसर्जितव्याय नमः ॐ अनानन्दयिताव्याय नमः ॐ अमन्तव्याय नमः ॐ अचि्याय नमः ॐ अलङ्घयितव्याय नमः बोद्धव्याय नमः ॐ अवृत्तये नमः ॐ अचेतयितव्याय नमः ॐ अहङ्काराय नमः ॐ अनिन्द्रियाय नमः ॐ अनपानाय नमः ॐ अव्याय नमः ॐ अनेकदाय नमः ॐ असमानाय नमः ॐ असङ्गमाय नमः ॐ अकर्णाय नमः ॐ अशरीराय नमः ॐ अविक्रियाय नमः ॐ असुत्वाय नमः ॐ अव्यपदेश्याय नमः ॐ अरजस्काय नमः ॐ अगुणाय नमः ॐ अतपस्काय नमः ॐ अबाधाय नमः ॐ अवायाय नमः ॐ अनन्नमयाय नमः ॐ अवयाय नमः ॐ अनिर्वचनीयाय नमः ॐ अप्राणमयाय नमः ॐ अविज्ञानमयाय नमः ॐ अमनोमयाय नमः ॐ अनानन्दमयाय नमः ॐ अघोषाय नमः ॐ अव्यञ्जनाय नमः ॐ अस्वराय नमः ॐ अनभिजाताय नमः ॐ अवधूताय नमः ॐ अगोचराय नमः ॐ अचिय नमः ॐ असामानाय नमः ॐ अलिङ्गाय नमः ॐ अविशेषणाय नमः ॐ अलौकिकाय नमः ॐ अखण्डाकाराय नमः ॐ अमलाय नमः ॐ अदृष्टाय नमः ॐ अनल्पाय नमः ॐ अव्यवहार्याय नमः ॐ अद्वयाय नमः ॐ अनन्ताय नमः ॐ अविद्यारहिताय नमः ॐ अद्वैताय नमः ॐ अबाह्याय नमः ॐ अनन्तराय नमः ॐ अमात्राय नमः ॐ अनन्तमात्राय नमः ॐ अनामधेयाय नमः ॐ अमृताय नमः ॐ अजाय नमः ॐ अकारणाय नमः ॐ अनाभाषाय नमः ॐ अनाधाराय नमः ॐ अनाश्रयाय नमः ॐ शेषवेदान्तवेद्याय नमः ॐ अनिरुक्ताय नमः